नमस् सर्वेभ्यः अस्माकं इति वर्गे भवतां सर्वेषां स्वागतम् अद्य अयं संसारः कः इति करपत्रस्य पठनात् प्राक् किञ्चित् वक्तुमिच्छामि तत्र मुक्तिः मुक्तेः उपायः कः इत्युक्ते पाशः यः पाश ये पाशाः सन्ति तेभ्यः मुक्तिः कथं भवति मन एव मनुष्याणां कारणं मन्दमोक्षयोः बन्धस्तु विषयासङ्गी मुक्तो निर्विषयं तथा मन एव मनुष्याणां कारणं बन्धमोक्षयोः इत्युक्ते मनुष्यस्य बन्धनस्य कारणमपि मनः एव मोक्षस्य कारणमपि मनः एव मन मनसा द्वारा एव तत्र मनसः द्वारा एव मोक्षः अपि भवति मनसः द्वारा एव बन्धनमपि तर्हि अन्येषु जीवेषु मनुष्यैतरजीवेषु मानसिकस्वातन्त्रता नास्ति तेषु इत्युक्ते मनः वर्तते तेषामपि मनः वर्तते परन्तु मानसिकस्वतन्त्रता तेषु न वर्तते तेषु किम् अस्ति अन्येषु जीवेषु किम् अस्ति इति चेत् सहजवृत्तिः अस्ति सहज सहजातवृत्तिः सहजातवृत्तिः अस्ति इन्बोर्न् इन्स्टिङ्ग्स् अस्ति ते तत्र तेषां तेषां द्वारा किमपि कार्यं भवति तद्विहाय यद्यत् करणीयं तदेव तैः क्रियते तद्विहाय अन्यत् किमपि न क्रियते किन्तु मनुष्याणां कथमस्ति मनुष्याणां तु मनः स्वतन्त्रम् तर्हि तेषां स्वातन्त्रता वर्तते यत् ते बन्धने भवितुम् इच्छन्ति वा अथवा मुक्तिमिच्छन्ति वा इति यदि बन्धनम् इच्छामः तर्हि वयं बद्धाः भवामः पाशैः बद्धाः भवामः यदि बन्धनं बन्धनं न इच्छामः तदानीं मुक्तेः कृते वयं प्रयत्नं कुर्मः तर्हि बन्धनस्य अपि कारणं मनः एव मुक्तेः कारणमपि मनः एव परन्तु वयं कथं महान् कथं वयम् इत्युक्ते यदि कोपि तत्र महान् भवितुम् इच्छति कथं सः भवितुं शक्नोति महान् कथं भवितुं शक् शक्नुमः इत्युक्ते यदि मनसः विषयः लघु लघुविषयः अस्ति लघुः अस्ति विषयः यथा तत्र सांसारिकः विषयः कोऽपि विषयः अस्ति तर्हि तदानीं मनः अपि लघु एव भवति मनः सर्वदा स्वविषयकमेव भवति तर्हि निर्विषयकं कदापि न भवति सर्वदा विषयः एव भवति यदि विषयः लौकिकविषयः भवितुम् अर्हति अथवा पारमार्थिकविषयः भवितुम् अर्हति परमपुरुषः विषयः भवितुम् अर्हति यदि तत्र वरसः विषयः लौकिकविषयः अस्ति तदानीं किं भवति इति चेत् मनः अपि लघु भवति यदि तत्र मनसः विषयः अनन्त अनादिसत्ता वर्तते तदानीं किं भवति इति चेत् मनः अपि वर्धते मनः बहु विस्तार विस्तारं भवति मनः विस्तारं भवति यदा मनः मन मनसः विस्तारः जायते तदानीं तादृशः मनुष्यः महान् भवति महान् भवति इत्युक्ते मनः मनसः विषयः सर्वदा भवति इति वयं वदामः खलु विषयः एव वयं शास्त्रे आभोगः इति वयं वदामः आभोगः इत्युक्ते यस्मात् वस्तुनः मनसः कृते भोजनं लभ्यते इत्युक्ते यथा अस्माकं शरीरस्य कृते भोजनम् आवश्यकमस्ति अन्नम् आवश्यकमस्ति तथैव मनसः कृते अपि भोजनम् आवश्यकमस्ति तदेव आभोगः इति वयं वदामः इत्युक्ते मनसः विषयः मनसः विषयः यदि मनसः विषयः सीमितः सीमितं वस्तु क्षुद्रं वस्तु अस्ति तर्हि मनः अपि क्षुद्रं भवति सीमितं भवति यदि यदि मनसः सीमितं वस्तु यदि मनसः विषयः तदानीं मनः लघु भवति तस्य विचारः अपि सर्वदा लघुः एव भवति इत्युक्ते तस्य मनसि स्वच्छता न भवति मनः शुद्धं न भवति तर्हि आभोगः मनसः यः विषयः आभोगः सः आभोगः असीमितः अस्ति अनन्तः अस्ति शूद्रः नास्ति तदानीं किं भवति इति चेत् तदानीं मनः निरन्तरं वर्धते मनः निरन्तरं वर्तते तदानीं सः पुरुषः महान् पुरुषः इति वयं वदामः तर्हि इदानीम् आम् अस्माकं हस्ते अस्ति यदि तत्र अस्माकं विषयः सीमितः सीमितं वस्तु अस्ति वा अथवा सीमितं सीमितं वस्तु यदस्ति तद् वयं मनसः विषयः इति वयं स्वीकुर्मः वा अतः असीमितवस्तु यदस्ति विराट् वस्तु यदस्ति तद्वस्तु वयम् अस्माकं मनसः विषयः इति वयं स्वीकुर्मः वा इत्यत्र अस्माकं स्वातन्त्र्यं वर्तते अस्ति वर्तते अस्ति यदि वयं महान् भवितुम् इच्छामः महा। तदानीं वयं किं स्वीकुर्मः इति वयं जानीमः यदि तत्र तादृशं न इच्छामः तर्हि केवलं लौकिकं लौकिकविषये के एव वयं तृप्ताः तदानीं ता तत्र किं भवति वयं महान् न तत्र किं किं भवति तदानीं तु मनः सर्वदा लौकिके विषये एव पतति अपि च लघु भवति मनः लघु भवति तर्हि तत्र बन्धः तु मुक्तो निर्विषयं तथा मन मनसः विषयः नीचविषयः अस्ति तदानीं तादृशविषयः तत्र पाशः इव भवति पाषः इव भवति येन मनः बद्धं भवति मनः बद्धं भवति तदानीं सः जीवः बद्धः इति वयं वदामः बद्धः जीवः इति वयं वदामः यदि मनसः विषयः अनन्त अनादिसक् सत्ता वर्तते तदानीं तं किं वदामः सः जीवः मुक्तः जीवः पाशबद्धः भवेत् जीवः पाशमुक्तः भवेत् शिवः यदि विषयः अस्माकं मनसः विषयः लघुविषयः लौकिकविषयः तदानीं पाशैः बद्धाः भवामः अष्टपाशाः सन्ति तैः पाशैहि बद्धाः भवामः सर्वदा जीवः इत्येव वयं भवामः यदि विषयः अनन्त अनादिसत्ता वर्तते तदानीं तत्र सः एव पाशः इदानीं तत्र मुक्त पाश पाशैः पाशैः मुक्तः भवति यदा परमपुरुषः अस्माकं मनसः विषयः तदानीं पाशैः सह बद्धः न भवति मुक्तः भवति यदा मुक्तः भवति तदानीं वयं तं शिवम् इति वयं वदामः सः साक्षात् शिवः शिवः एव भवति तर्हि इदानीं तत्र बन्धस्तु विषयासङ्गी मनसः विषयः लघुविषयः अस्ति चेत् तदानीं तस्मिन् एव वयं सर्वदा विलीनाः भवामः तदानीं साधारणः जीवः इति वयं भवामः साधारणजीवरूपेण एव वयं तिष्ठामः पाशबद्धाः भवेत् जीवाः पाश पाशः इत्युक्ते बन्धनं पासः इत्युक्ते बन्धनं पाशमुक्ताः भवेत् शिवः यदा कोऽपि पुरुषः यः धीरः अस्ति यः धीरः अस्ति यः प्रयत्नं करोति यः चेष्टां करोति पाशैः मुक्तिं प्राप्तुं यः चेष्टां करोति सङ्घर्षं स्वीकरोति सङ्घर्षस्य आलिङ्गनं करोति इत्युक्ते वयं सर्वे इदानीं तत्र लौकिकविषये व्यस्ताः यदा वयं भवामः तदानीं किं भवति इत्युक्ते पशुजीवनं पशुजीवने एव अस्माकं व्यवहारः अस्ति तदानीं परन्तु वयं जानीमः अत्र ये अस्माकं वर्गे सन्ति वयं जानीमः यत् मनुष्यस्य धर्मः कः इति वयं जानीमः अस्माकम् अनन्तेषणा वर्तते इति अपि जानीमः तदानीं वयं किं कुर्मः इति चेत् इदानीम् अस्माकं हस्ते तत्र आप्शन् वन् आप्शन् टु अस्ति तर्हि तयोः मध्ये विकल्पद्वयं वर्तते तयोः मध्ये वयं किं स्वीकुर्मः इति अस्माकं हस्ते अस्ति स्वातन्त्र्यम् अस्माकं हस्ते अस्ति इत्युक्ते पशुजीवनं बहु सरलम् अस्ति पशुजीवने तत्र प्रयत्नस्य आवश्यकता एव नास्ति यतोहि प्रतिदिनं तदेव कुर्मः खलु तदर्थं किमपि विशेषतया किमपि आवश्यकं नास्ति सङ्घर्षस्य आवश्यकता नास्ति इत्यस्ति तत्तु सामान्यतया वयं कुर्मः अस्माकं परिचितः विषयः ताद अस्ति अतः प्रतिदिनं तत् कुर्मः तेन सन्तोषमपि प्राप्नुमः परन्तु यदा अस्माकं विषयः अनादि अनन्तसत्ता तादृशविषयं वयं तादृशविषयस्य चयनं कुर्मः इत्युक्ते चयनस्य आवश्यकता अस्ति इत्युक्ते एवमेव भवति इति नास्ति मनसि दृढसङ्कल्पः भवेत् कथं दृढसङ्कल्पः भवेत् अहम् इदानीं मम जीवनम् इतः अग्रे मम जीवनं मम जीवनस्य लक्ष्यं किमस्ति अनन्तस्य प्राप्तिः एव मम जीवनस्य लक्ष्यम् इति दृढसङ्कल्पः यदा भवति तदानीं किं भवति इति चेत् यदा वयं वर्गे आगच्छामः तदानीम् अस्माकं दृष्टिकोणः भिन्नः भवति पूर्वं यथा अस्माकं दृष्टिकोणः आसीत् तथा नास्ति इदानीम् अस्माकं दृष्टिकोणः नूतनः दृष्टिकोणः अस्ति अहम् इदानीं मम जीवनस्य लक्ष्यं भिन्नम् अस्ति लौकिकविषयः मम लक्ष्यं नास्ति इति एवं दृढसङ्कल्पं कृत्वा वयम् आगच्छामः तदानीं अत्र प्रयत्नः अपि दृढः भवति इत्युक्ते यत्किमपि किमपि वयं पठामः यत्किमपि वयं शृण्मः यत्किमपि अस्माभिः आचरणीयं तत्र सर्वत्र अस्माकं श्रद्धा भवति यदा श्रद्धा भवति किं तत्र वयम इतोपि प्रयत्नं कुर्मः सम्यक्तया मया करणीयम् एतावता मयाना कृतमित कृतम् इति इतः अग्रे अहं दृढसङ्कल्पं स्वीकरोमि मम मनसि दृढसङ्कल्पं स्वीकरोमि अहं पाशैः विमोचनम् इच्छामि पासैः विमोचनम् इच्छामि अहं साक्षात् शिवं शिवरूपेण अहं तादृशस्थानं प्राप्तुमिच्छामि तत्र मम अनन्तेष्णायाः पूर्तिः भवतु इति तादृश इच्छा वर्तते इति एतादृशदृढसङ्कल्पः यस्य मनसि वर्तते सः पुरुषः अवश्यम् अवश्यं हि वासैः मुक्तः भवति तदानीं सः शी जीवः न भवति तदानीं सः शिवः भवति साक्षात् तर्हि अस्माकम् आध्यात्मिकसाधना आध्यात्मिकसाधना निरन्तरं आध्यात्मिकसाधनायां सङ्घर्षः वर्तते यतोहि किमर्थं सङ्घर्षः इति चेत् पाशैः विमोचनम् अस्माभिः प्राप्तव्यं खलु तत्तु एवमेव न भवति तत्र सङ्घर्षः अपेक्षितः अस्ति प्रतिदिनं सङ्घर्षः सङ्घर्षः अस्माभिः करणीयः सरलं नास्ति सरलम् इत्युक्ते अस्मिन् अस्मिन् लोके किमपि सरलं नास्ति खलु इदानीं तत्र लौकिकविषये यदि तत्र कोऽपि डिग्री प्राप् प्राप्तुमिच्छामः इञ्जिनियरिङ्ग् डिग्री प्राप्तुमिच्छामः अथवा डाक्टर् भवितुमिच्छामः तत्रापि सङ्घर्षः अस्ति खलु तत्र सङ्घर्षः नास्ति वा जीवने प्रतिदिनं यत् यत्किमपि कुर्मः तत्रापि सङ्घर्षः अस्ति अतः सङ्घर्षः आध्यात्मिकजीवने सङ्घर्षः अस्ति इति मया आध्यात्मिकजीवनं मया त्यज्यते इति न वक्तुं शक्यते खलु सङ्घर्षः तु सर्व अन्यत्र अपि अस्ति अत्रापि सङ्घर्षः अस्ति अत्र अस्माकं Uh, तत्र मानसिक आलस्यम् अस्ति मानसिक आलस्यम् अस्ति इति कृत्वा वयं uh, आध्यात्मिकसाधनं न स्वीकुर्मः यतोहि uh, सरलं वयम् अहं करोमि चेत् तद् तदेव करोमि किमर्थं प्रयत्नः मया करणीयः किमर्थं सङ्घर्षः करणीयः बहु कठि कती, कठिनम् अस्ति एतत् सर्वं मया एतत् न करोमि इति तादृशभावना कदाचित् मनसि स्यात् परन्तु तदानीं सर्वदा स्मर्तव्यं यत् लौकिकजीवने अपि सङ्घर्षः अस्ति परन्तु तेन सङ्घर्षेण किमपि न लभ्यते यत्किमपि लभ्यते तत्तु तत्तु क्षणिकमस्ति इदानीं लभ्यते सुखं तदनन्तरं गच्छति पुनः किमपि सुखं लभ्यते पुनः दुःखम् आयाति इति कृत्वा यदा सुखं सुखम् अनुभवामः तदानीं क्षणिकरूपेण ओ बहु सम्यक् अस्ति इति पुनः यदा दुःखम् आयाति तदानीं ओ अहम् एतत् दुःखं न इच्छामि अहम् एतादृशदुःखं कदापि न इच्छामि इति मनसि आयाति तर्हि तत्र सङ्घर्षः अस्ति तत्र सङ्घर्षं कर्तुं वयम् इच्छामः परन्तु आध्यात्मिकजीवने सङ्घर्षं कर्तुं न इच्छामः यत्र अस्माकं निरन्तरसुखं लभ्यते निरन्तर निरन्तर सुखं लभ्यते निरन्तरम् आनन्दं लभ्यते तत्र वयं प्रयासं कर्तुं न इच्छामः तर्हि इदानीम् तर् अस्माकं like हस्ते स्वातन्त्र्यमस्ति अहं किं करोमि एतत् स्वीकरोमि वा तत् स्वीकरोमि वा इति स्वतन्त्र इच्छा अस्माकं हस्ते अस्ति अतः ये अत्र योगनस्य जीवने इत्युक्ते तत्र प्रयत्नं कर्तुम् इच्छन्ति दृढसङ्कल्पः मनसि अस्ति येषां मनसि दृढसङ्कल्पः अस्ति ते अवश्यम् अत्र अस्मिन् अस्मिन् प्रयासे निरन्तरं ते सङ्घर्षं स्वीकुर्वन्ति स्वीकुर्वन्ति तदानीं तत्र ग्यारण्टि अस्ति तदानीं ग्यारण्टि अस्ति पाषैः वयं मुक्ताः अवश्यमेव भवामः तत्र न संशयः वयं सर्वे साधकाः स्मः खलु वयं सर्वे साधकाः स्मः तर्हि अतः वयम् अस्माभिः ज्ञातव्यमस्ति पाशः नाम पाशैः कथं विमोचनं प्राप्तुं शक्नुमः तत् तदनुसारेण वयं कुर्मः अवस्यमे, यदा वयं कुर्मः तदानीं वयम् अवश्यम् अवश्यमेव साफल्यमपि वयं प्राप्नुमः इदानीम् इत्युक्ते परमपुरुषस्य कृपा कृपावृष्टिः सर्वेषां कृते अस्ति सर्वेषां कृते परमपुरुषस्य कृपा वृष्टिः अस्ति परन्तु यः पुरुषः तत्र स्वाभिमानेन तत्र छत्रं तस्य शिरसः उपरि छत्रं धरति तर्हि तस्य उपरि परमपुरुषस्य कृपा न भवति यदि तस्य अहङ्कारः अस्ति अहमेव सर्वं इत्युक्ते अहमेव अस्मिन् जगति महान् इति भावना यस्य अस्ति सः तु तस्य तस्य शिरसः उपरि छत्रं धरति तादृशपुरुषस्य उपरि परमपुरुषस्य कृपा वृष्टिः न भवति यतोहि छत्रम् अस्ति परन्तु परमपुरुषस्य कृपा वृष्टिः सर्वत्र पतति यस्य पुरुषस्य तादृश अहङ्कार अहङ्कार अहङ्काररूपेण छत्रं नास्ति तदानीं तस्य उपरि तु वृष्टिः भवति एव तर्हि इदानीं परमपुरुषस्य दोषः तु नास्ति सः तु सर्वे उपरि वृष्टिं करोति परन्तु यदि वयं तु अस्माकम् अभिमानेन स्वाभिमानेन अस्माकम् अहङ्कारेण एतादृशचक्रं वयं गृह्णीमः तदानीं तत्र परमपुरुषस्य कृपावृष्टिः न भवति तस्मिन् परमपुरुषस्य दोषः नास्ति तत्र तु अस्माकमेव दोषः अस्ति यदा अस्माकं तत्र अहङ्कारः अहङ्कारः अहम् अहम् इति यः अहङ्कारः अस्ति तादृश अहङ्कारः यस्य पुरुषस्य अस्ति तादृशपुरुषः परमपुरुषस्य कृपृष्टिं न प्राप्नोति परन्तु यदा तादृश अहङ्कारः गच्छति तदानीं सः परमपुरुषस्य कृपृष्टिम् अवश्यं प्राप्नोति सः जीवने साफल्यम् अवश्यमेव प्राप्नोति तादृशपुरुषः पाशैः मुक्तः अवश्यं भवति सः पुरुषः अवश्यमेव शिवः भवति इति उक्त्वा अत्र किञ्चित् अग्रे गच्छामः कोऽपि प्रश्नः अस्ति मात्र तर्हि अस्माभिः एतावता किं दृष्टमिति चेत् जगतः कारणं परमपुरुषः एव जगतः कारणं तर्हि क्रमेण तत्र सगुणब्रह्म निर्गुणब्रह्म इति अवस्थाद्वयम् अस्ति सगुणब्रह्मणि सगुणब्रह्म एव अत्र सृष्टेः कारणम् अस्ति एव सामग्रीरूपेण स्वीकृत्य जगत् करोति जगत् करोति तत्र ब्रह्मणि ब्रह्मणि पुरुषः प्रकृतिः इति सत्ताद्वयं वर्तते निर्गुणब्रह्मणि अपि सत्ताद्वयं वर्तते निर्गुणब्रह्मणि तत्र निर्गुणभ्रमणि पुरुषः प्रकृतिः इति सत्ताद्वयं वर्तते प्रकृतिः तत्र निर्गुणभ्रमणि सा किमपि कर्तुं न शक्नोति यद्यपि तस्यां गुणाः सन्ति परन्तु सा किमपि कर्तुं न शक्नोति यतोहि पुरुषेण अनुमतिः न दत्ता यदा यदा पुरुषः अनुमतिं ददाति तदानीं तत्र प्रकृतिः पुरुषं गुणान्वितं करोति तदानीम् इदं सृष्टिः इदं इदं जगत् इदं परिदृश्यमानं जगत् दृश्यते तर्हि अत्र अस्मिन् जगति यत्किमपि अस्ति पुस्तकं भवतु मनुष्यः भवतु पशुः भवतु वृक्षः भवतु पाषाणखण्डः भवतु जलं वा भवतु यत्किमपि आकाशः भवतु यत्किमपि भवतु नाम सर्वं ब्रह्म एव ब्रह्मविहाय अन्यत् किमपि नास्ति अत्र यः या या धूलिः अस्ति भूमौ या धूलिः अस्ति सा ब्रह्म एव सा एव ब्रह्म ब्रह्म एव सर्वम् अत्र जगति यत्किमपि अस्ति सर्वं ब्रह्मस्वरूपं सर्वं ब्रह्मणः एव अभिव्यक्तिः अस्ति इति सर्वदा स्मर्तव्यं तर्हि इदानीं आ, तत्र यदा इत्युक्ते अत्र इदं जगत स्थूलं वर्तते इदं जगत् स्थूलं वर्तते मया तु इदं जगत् दृश्यते स्थूलं वर्तते जगति तन्मात्राणि सन्ति मया जगत द्रष्टुं शक्यते अनुभवितुं शक्नोमि तर्हि इदानीं परन्तु पुरुषः तु सूक्ष्मः वर्तते इति एतावत् अस्माभिः दृष्टम् इदानीं स्थूलजगत जगतः बीजं सूक्ष्मपुरुषे कथं भवितुम् अर्हति इति तर्हि तत्र पुरुषः सूक्ष्मः न स्यात् पुरुषः स्थूलः स्यात् इति अस्माकं प्रश्नः जायते तदानीम् अस्माभिः किम् उक्तमस्ति इदम् इदं जगत् तु वस्तुतः इदं जगत् वस्तुतः पुरुषस्य पुरुषस्य मनसि वस्तुतः एका एका कल्पना वर्तते एका कल्पना वर्तते पुरुषस्य मनसि एका कल्पना तर्हि सा कल्पना सर्वदा वर्तते सा कल्पना स गुणब्रह्मणि सर्वदा सगुणब्रह्मणः मनसि भूममनसि सर्वदा सा कल्पना वर्तते तर्हि सा कल्पना वर्तते इति कृत्वा वयं इदं जगत इदं जगत् वस्तुतः सत्यम् इति वयं चिन्तयामः सत्यं जगत् सत्यं इत्युक्ते जगत् इत्युक्ते इत्युक्ते अत्र केचन जनाः वन् वदन्ति ब्रह्मसत्यं जगन् मिथ्या इति परन्तु यद्यपि एतत् सर्वं ज एतत् ब्रह्मणः मनसि कल्पना वर्तते तथापि अस्माकम् अनुभवः अस्ति यदा वयं लोके वसामः तदानीं तु अहं मिथ्या इति भावः नास्ति अथवा यः वृक्षः दृश्यते अथवा पशु दृश्यते तत्तु मिथ्या इति न अनुभवामः न यावत्पर्यन्तं वयं ब्रह्मणः मनसि कल्पनारूपेण ब्रह्मणः कल्पनायां वयं स्मः तदानीं तावत्पर्यन्तम् एतत् सर्वं तु अनित्यम् इति न भासते परन्तु एतत् सर्वं तु वस्तुतः कल्पना एव परन्तु ब्रह्मणः कल्पना तु अवश्यमस्ति कल्पना नास्ति ब्रह्मणः कल्पना अस्ति कल्पनायां वयं स्मः इति कृत्वा तत्तु अत्र सापेक्षिकं सत्यं वर्तते इति वयं वक्तुं शक्नुमः इत्युक्ते तत्र पुरुषः एव पुरुषः एव क्रमेण तत्र यदा प्रकृतिः पुरुषं गुणान्वितं करोति तदानीं पुरुषः एव क्रमेण भिन्नभिन्नभिन्नरूपं धरति सः एव पाषाणखण्डरूपेण तिष्ठति सः एव आकाशरूपेण तिष्ठति सः एव भिन्नभिन्नरूपेण तिष्ठति यदा प्रकृतेः प्रभावः अधिकः भवति सः बहु बहु स्थूलः भवति यदा प्रकृतेः प्रभावः बहु बहु अधिकः अस्ति तदानीं सः स्थूल पाषाणखण्डरूपेण क्षितितत्त्वरूपेण सः तिष्ठति परन्तु यत्र तस्य प्रभावः अधिकः नास्ति न्यूनः अस्ति तदानीं सः सूक्ष्मः सूक्ष्मरूपेण अपि तिष्ठति अतः एतत् सर्वं जगत् पुरुषात् एव निर्मितम् प्रकृतेः प्रकृतैः प्रकृतेः गुणे गुणैः एतत् जगत् सर्वं निर्मितमस्ति तर्हि अत्र अत्र सूक्ष्मः इति सूक्ष्मः स्थूलः इति यदा वयं वदामः तत्र स्मार्तव्यं सूक्ष्मः इत्युक्ते यत्र तन्मात्राणि न सन्ति रूपरसगन्धस्पर्श शब्दतन्मात्राणि न सन्ति तादृशसत्ता सूक्ष्मसत्ता यत्र एतानि तन्मात्राणि सन्ति तादृशसत्ता स्थूलसक्षा सत्ता इति अस्माभिः चिन्तितं तर्हि इदानीम् अत्र वस्तुतः अत्र गतवर्गे अस्माभिः कुत्र चेत् पुरुषः सूक्ष्मः अस्ति इदं जगत्तु स्थूलमस्ति तर्हि कथं स्थूलजगतः बीजं पुरुषे भवितुम् अर्हति कथं भवितुम् अर्हति इति एव अस्माकं प्रश्नः आसीत् तर्हि ततः ततः एव एकवारं वयं पठामः तर्हि किं भगिनि एकः प्रश्नः अस्ति भवती अष्टपाशाः उक्तवती पञ्च इति अहं चिन्तयामि पञ्च तन्मात्राणि सन्ति त्रयधिक के पाशाः न तन्मात्राणि इति भिन्नं पाषाः इति भिन्न पाषाः इति इत्युक्ते इत्युक्ते पाषाः इत्युक्ते कामक्रोधमोहलोभ मदमात्सर्य लज्जा इति एव एतादृश सन्ति अस्तु तन्मात्राणि इति विषयः भिन्नः अस्ति पाषाः इति भिन्नविषयः विषयाः ये भवन्ति इन्द्रियाणि इन्द्र इन्द्रियाणां ये विषयाः सन्ति ते अपि एव भवन्ति सादृश तैः पाशाः भवति तैः पाषाः भवन्ति इत्युक्ते लोके ये विषयाः सन्ति कामक्रोधलोभः अस्तु अस्तु आमां तैः पाषाः कामः क्रोधः लोभः इति अस्ति ते प्राप्तुं ते पाशाः भवन्ति अस्तु अस्तु धन्यवादः तर्हि भवते एव पठतितः भवत्याः स्क्रीन् न दृष्टत ओ नो नो दृश्यते ओ क्षम्यतां अर्जुना इति सर्क्लिङ्ग् अस् अस्तु आगच्छति पुरुष पुरुष पुरुषात् एव इति गतसप्ताहे कृतवन्तः साधु ओ कृतवन्तः वा अस्तु अस्तु तर्हि ततः ततः अग्रे कुर्मः तर्हि कारणकी अहं शृणोमि अहं पुरुष पुरुष आदि एव इति उक्तवती ओके अतः अस्तु अत्र पुनः अतः पुनः विरोध आभासा उत्पाद है पुर जगत सृष्टि जता पूर्व उत्त कि यदि बीज तस्त तथम पुरुषे जगत निर्मित एक युक्त हेतुदृष्ट चाती अतः जगत कदाप निर्माण न जात कथनम संगतम अस्त युष स्वभाव अस्ति तस्मात् च स्थूलविश्वुं न शक्यते स्म तथापि पूर्वम् उक्तं यत् जगत् तस्मात् एव निर्मितम् इति एतत् एव युक्त्या सत्यम् इति निरूपितम् अतः केवलम् अन्यत् तर्कसङ्गतं वचनं भवति यत् स्थूलजगत् कदापि वास्तव वास्तविकरूपेण सृष्टं नासीत् तथापि अस्य परिदृश्यमानस्य जगतः अस्तित्वं न उप, उपेक्षणीयम् वस्तुतः एतत् स्थूलजगत् पुरुषस्य चिन्तनं चिन्तनप्रे प्रक्षेपणरूपेण एव निर्मितम् अस्ति प्रकृत्या प्रभावितः चेत् पुरुषस्य मनसि कश्चन तरङ्ग उत्पद्यते यस्य परिमाणरूपेण समग्रसृष्टिः काल्पनिक सत्ता यहाँ भिन्न रूपा पुरुष से मनसी का सत्ता अस्थ मनसी का सत्ता एवं जगत आगछति तस् निर्माणा स्थूल पदार्थ न आवश्यक काल्पनिक वस्तूनी न स्थल वास्तविक अतः तेषां हि सृष्टि अर्थ पदार्थः न आवश्यकः भवेत् अतः पुरुषः यः सूक्ष्म अस्ति सः सा, स्वस्मात् सहजतया सा जगत् स्रष्टुं शक्नोति पुनः यत् पूर्वं परिच्छेदं वयं दृष्टवन्तः कथं सूक्ष्मपुरुष पुरुषात् स्थूलजगतस्य निर्माणं भवति इति आगच्छति अत्र अत्र दत्तमस्ति इति तु प्रश्नः अस्ति कथं सूक्ष्म पुरुष सूक्ष्म अस्ति जगत् स्थूल अस्ति वयं द्रष्टुं तस्य मनसि विचारं कर्तुं शक्नुमः किन्तु पुरुषस्य इति कोऽपि इन्द्रियाणि तेषाम् उपयोगं कृत्वा पुरुषस्य वयं स्थूलतया पुरुषः इति न प्राप् न द्रष्टुं विचारितुं शक्नुमः इन्द्रियाणि इन्द्रियाणि वा मनसा इन्द्रियः वा मनसा इति न कर्तुं शक्नुमः कथं जगत् इति सूक्ष्मपुरुषः स्थूलजगत् निर्माणं कर्तुं शक्नोति इति अत्र दत्तमस्ति Uh, कारणकी यदि uh, uh, प्रकृत्या प्रभावेन पुरुष गुणवित् भवति तदानीं पुरुषस्य uh, पुरुषम एकतरङ्गम् आगच्छति यत् तत् यदि आगच्छति तस्मात् एव सृष्टि uh, निर्माणं कर्तुं तस्य इच्छा इति उत्पद्यते यदि इच्छा उत्पद्यते तदानीम् एव uh, uh, uh, जगतः निर्माणं भवति स्थूलजगतस्य निर्माणं भवति यथा वयं दृष्टवन्तः सूक्ष्म सूक्ष्मतात् स्थूलत इति यदि भूतानि सन्ति तस्य निर्माणं भवति इति परिमाणं भवति इति नूतनबिन्दुः अस्ति पुरुषस्य मनसि प्रकृत्याप्रभावेन तरङ्गः आगच्छति तरङ्गानि इच्छा आगच्छति अनेन यद् इच्छा भवति तत् अनन्तरं क्रिया भवति भवति इति अस्ति सर्वेषु काल्पनिक यदि कल्पना यदि वयम् अपि कल्पना इदानीं कुर्मः तत् पुरुषस्य कल्पनाः वयं न कर्तुं शक्नुमः कारणी पुर, पुरुषः वयं जानीमः चेत् निर्गुण निर्गुणः अस्ति तस्य का, काल्पनिकरूपं न अस्ति किन्तु यदि वयं प्रयोगम् इति यदि कम्पेरिसन् कुर्मः अस्माभिः अस्ति अति अस्मान् कथं वयं किं कार्यं क प्रथमम् अस्माकं मनसि का इच्छात् पूर्वम् इति कं तरङ्गम् आस् आगच्छति तस्मात् इच्छा तद् यदि इच्छा अत्रीव भवति तदानीमेव वयं तत् कार्यं कर्तुं वयं अग्रे प्रसामः अस्माभिः यथा प्रक्रिया भवति अस्मान् मनसि अपि आमाम् आमाम् इत्युक्ते अस्माकं या यथा कल्पना भवति तथा परमपुरुषस्य यथा यथा अस्माकं मनः मनसि कल्पना भवति तथा परमपुरुषस्य मनसि कल्पना भवति तस्यां कल्पनायां वयं सर्वे स्मः अस्तु अस्मिन् परिच्छेदे तत्र किम् इति चेत् तत्र इदं जगत् स्थूलं वर्तते मया इदं जगत् दृश्यते इदं स्थूलं जगत् वर्तते स्थूलजग जगतः बीजं कथं वा सूक्ष्मपुरुषे भवति इति अत्र प्रश्नः अस्ति इत्युक्ते क्षीरे तत्र घृतं वर्तते क्षीरे मया न दृश्यते परन्तु तत्र वर्तते यदा तस्य मतनं कुर्मः तदानीं तत्र घृतं लभ्यते अथवा नवनीतं लभ्यते तर्हि तत्र नवनीतस्य बीजं क्षीरे अस्ति इति कृत्वा अस्माभिः नवनीतं प्राप्तम् एवम् इदं स्थूलजगतस्य बीजं सूक्ष्मपुरुषे वर्तते इति कथं वक्तुं शक्नुमः यदि इदं स्थूलमस्ति तस्य बीजं तत्र स्यात् तर्हि पुरुषः अपि स्थूलं स्यात् मया पुरुषं पुरुषस्य दर्शनं मया कर्तुं शक्यते स्यात् परन्तु तथा नास्ति तर्हि यथा मनुष्यः निद्रां कुर्वति करोति मनुष्यः निद्रां करोति रात्रौ तदानीं तस्य निद्रायां स्वप्नः आयाति तत्र स्वप्ने सः बहु किमपि बहूनां विषयाणां कल्पनां करोति तस्य मनसि तस्य स्वप्ने तर्हि स्वप्न स्वप्नावस्थायां तु तत्सर्वं तत्र ये विषयाः सन्ति सर्वे अपि वास्तविकरूपेण एव ते सर्वे विषयाः दृश्यन्ते परन्तु तत्र तु ते विषयातु, तु कल्पनायाम् एव अस्माकं स्वप्ने ते विषयाः सन्ति यदा तस्य स्वप्नः भग्नः भवति यः सः उत्थितः भवति प्रातःकाले तदानीं सः अवगच्छति ओ एतत् सर्वं तु स्वप्नः एव आसीत् तत्र स्वप्ने मया एतत् दृष्टं एतत् दृष्टम् इति सः वदति अत्र परमपुरुषः यः अस्ति तस्य मनः वर्तते तत्र मनसि प्रकृतेः प्रभावेन कल्पना जायते कल्पनायां भिन्नभिन्नविषयाः काल्पनिकः विषयाः भिन्नभिन्नविषयाः सन्ति तस्यां कल्पनायाम् एव वयं सर्वे स्मः परमपुरुषस्य कल्पनायामेव वयं सर्वे स्मः वयं सर्वे तत्र एव स्मः तत्र वयं यदा वयं तत्र स्मः तत्र अहमस्मि सरलाभग्नि अस् सरलाभग्नि अस्ति विजयाभगिनी अस्ति तत्र वृक्षाः सन्ति अहमपि वृक्षं द्रष्टुं शक्नोमि सरलाभग्नि अपि वृक्षं द्रुं शक्नोमि अहं सरलाभग्नीं द्रष्टुं शक्नोमि सर्लाभग्नी मां द्रष्टुं शक्नोति अहं विजयाभग्नीं द्रष्टुं शक्नोमि अहं प्रियाभग्नीं द्रष्टुं शक्नोमि इति एवं रीत्या वयं सर्वे परस्परं वयं परस्परस्य दर्शनं कर्तुं शक्नुमः अतः कथं वयं वक्तुं शक्नुमः एतत्तु मिथ्या इति कथं वक्तुं शक्नुमः एतत् सर्वं वास्तविकम् इत्येव दृश्यते खलु वास्तविकं नास्ति इति वयं वक्तुं न शक्नुमः यावत्पर्यन्तं लोके वयं स्मः तावत्पर्यन्तम् एतत् सर्वं तु वास्तविकमिति दृश्यते यथा अस्माकं स्वप्ने यदा विषयाः सन्ति ते सर्वं वास्तविकरूपेण एव दृश्यन्ते यावत्पर्यन्तं स्वप्नः भग्नः न भवति तावत्पर्यन्तं सर्वं वास्तविकम् इति दृश्यते यदा स्वप्नः भग्नः भवति तदानीम् ओ एवम् ओ एतत्तु अयं तु स्वप्नः आसीत् तत्र तु यत्किमपि मया दृष्टं तत्तु सत्यं नास्ति इति तदानीम् अवगमनं भवति अत्र अत्र तु वस्तुतः कल्पना एव अस्ति चेत् तर्हि तत्र स्थूलजगतस्य जगतः बीजं कथं पुरुषे भवितुमर्हति इति इदानीम् अत्र प्रश्नः उद्भवितः अस्ति तत्र प्रश्नस्य समाधानं किम् इति अग्रिमपरिषेदे अस्ति तत्र विजयाभगिनी पठति वा आम् अहं सङ्कणके अस्मि महोदय एकनिमिषं मम स्क्रीन् न दृश्यते वा मम स्क्रीन् दृश्यते खलु ततः जगतः अस्ति जगत त्वं खलु न सृष्टिः केवलं विचारतरङ्गः इति स्वीक्रियते चेत् सृष्टिः केवलं के अस्तु महोदय सृष्टेः केवलं विचारतरङ्गः सृष्टेः केवलं विचारतरङ्गः इति स्वीक्रियते चेत् निम्नलिखितसंशयाः उत्पद्यन्ते अत्र सृष्टेः केवलं विचारतरङ्गः अस्ति एव अत्र विचारं सृष्टेः विषये भवति इति स्वीक्रियते चेत् अत्र निम्नलिखितसंशयाः बहवः उत्पद्यन्ते एव अस्माकम् अत्र अग्रे अग्रे पठ कथम् इमं जगत् कथमिमं जगत् यथार्थम् इति अनुभव इदं जगति इदं जगत् कथम् इदं जगत् यथार्थम् इति अनुभवामः यदी तत् स्थूलरूपेण वास्तविकतया न वास्तविकता न अपि केवलं पुरुषस्य विचारप्रेक्षपणरूपेण विचारपक्षे पक्षेण विचारप्रक्षेपणरूपेण विद्यते हा हा आम् विचारप्रक्षेपणरूपेण विद्यते पुरुषस्य विचारः तरंगस्य निवृत्ति निवृत्ति क्षणे सृष्टेः समाप्तिः भवेत् विचारतरङ्गाः वा काल्पनिकसत्ता का सत्ताः क्षणमात्राः तेषां निवृत्तिः पूर्णतया प्रलयं जनयेत् अत्र कथम् इदं जगत् यथार्थम् इति अनुभवामः अत्र, अत्र यथा तु रूपेण जगत् अस्ति इति अनुभवामः चेत् अत्र स्थूलरूपे स्थूलरूपेण एव अत्र वास्तविकता वास्तविकरूपेण वयं द्रष्टुं शक्यते अपि तु केवलं पुरुषस्य विचारप्रक्षेपणरूपेण विद्यते पुरुषस्य विचारः तरंगस्य निवृत्तिक्षणे सृष्टः पुरुषस्य विचारः तु तरङ्गस्य इव निवृत्तिक्षणे सृष्टः समाप्तिः इति भवति सृष्टेः विषये समाप्तिः निवृत्तिक्षणे एव अत्र तरङ्गस्य इव अत्र विचारः भवेत् काल्पनिकता क्षणमात्रा एव अत्र सर्वं क्षणमात्रा एव अत्र तिष्ठति अनन्तरं सृष्टेः विषये भवति तेषां निवृत्तिः पूर्णतया प्रलयं जनयेत् एतत् निवृत्तिः तु प्रवृतिः निवृत्तिः इति अस्ति इदानीम् अत्र निवृत्तिः पूर्णतया प्रलयं प्रचु प्रचष्टेन लयः नीयते इति अत्र जनयति इति अत्र दत्तं महोदय हा समीचीन धन्यवादः इदानीम् अत्र प्रश्नः प्रश्नः उद्भावितः कथं सूक्ष्मपुरुषे स्थूलं सूल, जगत् वर्तते इति प्रश्नः उद्भावितः तर्हि तत्र तत्र सृष्टिः केवलं परमपुरुषस्य मनसि विचारतरङ्गः इति यदा वयं स्वीकुर्मः तदानीम् एताः एते प्रश्नाः अयन्ति तर्हि इत्युक्ते यत् यद् जगत् यद् जगत् वयम् अनुभवामः तत्तु तत्तु वस्तुतः तत्तु वास्तविकतया तत्तु विचारतरङ्गः एव अस्ति वास्तविकतया तत्र इत्युक्ते तत्र स्थूलवस्तु वस्तु वस्तु स्वीकृत्य तस्य निर्माणं कृतमिति नास्ति यथा घटस्य निर्माणार्थं मृत्तिका अपेक्षिता अस्ति कोपि कुम्भकारः मृत्तिकां स्वीकृत्य घटस्य निर्माणं करोति तथा अत्र परमपुरुषः तत्र तूलपदार्थं स्वीकृत्य जगतः निर्माणं परमपुरुषेण कृतम् इति तु अत्र नास्ति वस्तुतः तत्र तत्र जगतः निर्माणं केवलं विचारतरङ्गरूपेण पुरुषस्य मनसि विचारतरङ्गरूपेण एव अस्ति तर्हि यथा अस्माकं मनसि यदा विचारतरङ्गः आयाति यदा अस्माकं मनसि कल्पना आयाति किञ्चित् कालानन्तरं कल्पना नश्यते तदानीं कल्पनायां यद्दृष्टं तत्सर्वं गच्छति एवं परमपुरुषस्य कल्पना कल्पना अपि क्षणिका तस्यापि यदा कल्पना समाप्यते तदानीं सृष्टेः अपि नाशः विनाशः भवति इति एतादृशप्रश्नाः आयन्ति तर्हि इदानीं कल्पना इत्यस्य एतादृशप्रश्नानां समाधानं कर् कथं प्राप्तुं शक्नुमः इति चेत् प्रथमतया कल्पना नाम का इति अस्माभिः सम्यक्तया अवगन्तव्या तर्हि कल्पना कथं भवति इति अस्माभिः ज्ञातव्यं तर्हि इदानीम् अग्रे किं सरलभग्नि अग्रे पठति वा क्षम्यतां म्यूट् मध्ये आसं यदा कल्पना मनुष्यस्य मनसि आकारम् आनयति तदा केवलं कल्पनारूपेण एवं न दृश्यते मनः एव कल्पयति यावत् मनुष्यकल्पनायाः अधीनः भवति तावत् प्रत्येकं कल्पितं वस्तु वास्तविकम् एव दृश्यते कल्पनायाः भग्नस्य अनन्त अनन्तरम् एव सः अथवा सा अवगच्छति एतत् तस्याः वा कल्पना मात्रम इती। तो मात्रमिति अत्र अस्ति यदि कल्पना मनसि आगच्छति तत्र कल्पना कल्पना एव आकारं रूपं मनसि तिष्ठति तस्य स्थूलतया किमपि न भवति कल्पना मात्रं वयं सर्वम् अस्माकं मनसि द्रष्टुं शक्नुमः यथा अपि स्वप्नम् अस्ति तत्र अपि वयं वास्तविकरूपेण यदि स्वप्न स्वप्न स्था स्वप्नस्थायां स्तः वयं स्मः तदानीं सर्वम् इति वस्तुतः वास्तविक इति भाति किन्तु वास्तविकः नास्ति यदि वयं जागृतं भवामः तत् सर्वमिति अपगच्छति किं किमपि नास्ति इति कल्पना एव आसीत् अस्माकं मनसि स्वप्नमपि तथैव कल्पना यदि अस्ति सगुणब्रह्मस्य रूप पुरुष सगुणपुरुषस्य मनसि तत् एव अस्ति सर्वं जगत् इति वास्तविकस्थूलं नास्ति इति कल्पना एव अस्ति तरङ्गरूपेण यत् अस्ति दृष्ट्या यत् कल्पना अस्ति तत् आसीत् यथा कोऽपि चित्रकारः अस्ति तस्य मनसि कल्पना आगच्छति अहं कथं चित्रं निर्माणं कुर्म करोमि तस्य पूर्व कल्पना अस्ति तस्य मनसि ये या यः आर्ट् ये वन् हू मेक्स् द artist uh, who the uh, murti the from the stone that he makes the what is that called the one murti kar jaise ki the stone is, he he sees that in the stone what is exactly the picture is it will become and then he starts uh, uh, removing the other stones from the, uh, the makes it And that's how it is a Kalpana, uh, it, nothing else happened. It remained the whole stone, but he just removed and, and uh, gives the form of a murtito in that stone mm -hmm. uh, by removing the excess of stone which is there around it. Similarly, the, this Tarang is there in uh, uh, Purushasya Manasi Sat Aga Chathiti Kalpana. Sadhu? समीचीनं भगिनि समीचीनम् इति एव अत्र अस्ति इत्युक्ते यावत्पर्यन्तं कल्पना अस्ति तावत्पर्यन्तं सर्वं सत्यमिव भाति यदा कल्पनायाः भग्नः भवति तदा तदानीं वयम् अवगच्छामः ओ एतत् सर्वं कल्पना एव आसीत् इति वयम् अवगच्छामः अस्तु इदानीं ततः अग्रे गच्छामः शान्ताभगिनी पठितुमिच्छति वा आम् अधुना कल्प कल्पनां परिशील्य पश्यामः कथित वस्तु कल्पनाश्य पूर्वस्याख्या आसी युद्ध मनसा स भाग सर्वाणी कर्मा क्या स भाग अहम तत्व अहंकार अभी च मनस भाग यहाँ कर्मफल दर्शति अथवा कर्मफलूपति चित्तमस्ति अस्ति उदाहरणत्वेन यदा पुस्तकं पश्यति तदा चित्तं पुस्तकस्य तन्मात्रं गृहीत्वा पुस्तकस्य एव आकारं स्वीकरोति तथैव तथैव यदा कश्चन पुरुषः किञ्चित् रूपं कल्पयति तदा अहं तत्वं कार्यं कर्तुम् आरभते चित्तेन रूपं ग्राह्यं भवति येन अहं तत्वं द्रष्टुं शक्नोति उदाहरणत्वेन रामः प्रयागनगरे उपविशन् चान्दिनीचौक् नगर् चिन्तयन्नस्ति उदाहरणत्वेन रामः प्रयागनगरे उपविशन् चान्दनीचौक् नगरं चिन्तयन्नस्ति रामः स्वस्य अहं तत्वेन चान्दिनीचौक् नगरं चिन्तयति चित्तेन चान्दनीचौक् रूपं गृहीतत्त्वं भवति तस्मिन् क्षणे तस्य अहं तत्त्वं चान्दनीचौक् नगरं आरभते कल्पनाया कित अधुना कल्पना पशील्य पशा कथम कल वस्तु कल्पनायाव दृश्य अर्था वश्या तथा सत्य किं कल्पनायां कि वह दृष्टि पीशील कह तानि सर्वं कल्पना कल्पनस्य अभावस्य न दृश्यते तस्मिन् क्षणे मात्रं तिष्ठति इदमेव वयं पूर्वे अध्यायात् दृष्टुमः परन्तु मनसः ये भागः सर्वाणि चिन्तयति तत् कर्माणि करोति तत भागं माम् अस्माकम् अहं तत्त्वम् अहङ्कारम् इति भवति तत् कार्यं चित्तं स्वीकरोति यदि चित्तं स्वीकरोति तत् कर्मफलरूपं भवति तस्मात् किं मनसः मम किं मम मनसः वदति तत् एव नाम चित् चित्तं कार्यं कर्तुं प्रेरयति फार् एक्साम्पल् उदाहरणेन अहं तत्त्वं यदि पुस्तकं पश्यति तदा मम चित्तं पुस्त पुस्तकस्य तन्मात्ररूपं दृश्यति तद्गृहीत्वा तस्य आकारं स्वीकरोति तथैव यदि वयम् एकपुरुषः किञ्चित् रूपं कल्पयति कल्पनारूपेण दृश्यति तथा अहं तत्त्वं कार्यं कर्तुम् आरभते चित्तरूपं तस्य ग्राहम कृत्वा अहम् तत्त्वं द्रष्टुं शक्नोति उदाहरणेन यदि रामः प्रयागनगरे प्रयागनगरे तिष्ठन् उपविशन् रामः चान्दनीनगर चा चान्दनीचौक् नगरं चिन्तयति मनसि चिन्तयति तथा रामस्य अहङ्कारं तस्य चित्तात् प्रविश्य चान्दिनीनगरं रूपं चादिनीनगरस्य रूपं गृहीत गृही ग्राह्यति तस्मिन् क्षणे एव तस्य अहं तत्त्वं चान्दिनीचपुरनोपरं द्रष्टुम् आरभते कथं चिन्तनारूपेण कल्पनारूपेण इदमेव समीचीनं भगिनि सम्यक् इत्युक्ते इत्युक्ते कल् इत्युक्ते मनुष्यस्य जीवने तत्र बहिः ये यानि वस्तूनि सन्ति तेषां ग्रहणम् इन्द्रियैः भवति इन्द्रियैः अस्माकं ज्ञानं भवति यदा इन्द्रियम् अपि च मनः संलग्नं भवति तदानीं तत्र बाह्यवस्तु वस्तुतः तन्मात्राणि इन्द्रियैः गृह्यन्ते तदानीं तत्र तस्मात् तन्मात्राणि इन्द्रियात् तन्मात्राणि चित्तेन चित्तेन स्वीक्रियते तर्हि चित्तं बाह्यवस्तुनः रूपं धरति अथवा बाह्यवस्तु यद शब्दः अस्ति चेत् शब्दं शब्दरूपेण भवति चित्तम् अथवा रूप पुस्तकस्य रूपं धरति अथवा रसरूपेण भवति अथवा स्पर्शरूपेण भवति अतः यत्किमपि अस्म अस्माकम् इन्द्रियस्य विषयः तद्रूपं भवति चित्तम् यतोहि बाह्यवस्तुतः तन्मात्राणि इन्द्रियेण तन्मात्राणि इन्द्रियेण इन्द्रियेण तन्मात्राणि इन्द्रियं तन्मात्राणि स्वी स्वीकरोति तस्मात् इन्द्रियात् तन्मात्राणि चित्तेन स्वीक स्वीक्रियन्ते तर्हि चित्तं तद्वत् भवति तदानीम् अहं तत्त्वं चित्तं द्रष्टुं शक्नोति इदानीम् अहं तत्त्वं चित्ते पुस्तकं द्रष्टुं शक्नोति एवं रीत्या कार्यं भवति सामान्यतया परन्तु यदा तत्र इदानीम् अहं प्रयागनगरे अस्मि परन्तु मम मम इन्द्रियम् अपि च मनः संलग्नं नास्ति इदानीम् अहं कल्पनां करोमि तदानीं किं भवति तत्र इन्द्रियस्य कार्यं किमपि नास्ति तदानीं मया पूर्वं कदाचित् चान्दनीचौक् चा नगरं मया पूर्वं कदाचित् दृष्टं तर्हि इदानीं मम कल्पनायां मया चान्दनीचौक् नगरं दृश्यते तदानीं किं भवति मम विस्मर विस्मरणम् अस्ति इदानीम् न जानामि यत् अहं प्रयाग्नगरे अस्मि यतोहि मम कल्पनायाम् अहं विलीनम् अस्मि तदानीम् अहं केवलं चान्दनीचौक् नगरमेव अहं पश्यामि मम चित्तं चान्दनीचौक् नगरस्य रूपं धरति अहं चान्दनीचौक् नगरं पश्यामि अहम् इदानीं यद्यपि अहं प्रयाग्नगरे अस्मि परन्तु मम मनः इन्द्रेण संलग्नं नास्ति इति कृत्वा अहं केवलं चान्दनीचौकनगरं पश्यामि मम कल्पनायाम् इति एवं रीत्या कल्पना कार्यं करोति खलु इत्येवं रीत्या कल्पनाकार्यं करोति कथं चित्तं कार्यं करोति कथम् अहं तत्त्वं कार्यं करोति यद्यपि सः तत्र प्रयागे अस्ति तथापि कः रामः प्रयागे स्थित्वा कथं चान्दनीचौकनगरं पश्यति एतत् सर्वम् अस्माभिः अवगन्तव्यं तत् तस्य विषये इतोपि इतोपि अग्रे दत्तमस्ति तर्हि किं प्रिया भगिनी पठति कस्यापि वस्तुनः रूपम् ग्रहीतुम् तस्य तन्मात्रम् गृह्णाति चित्तम् आदौ पञ्चभूतम् भूतम् इव भवति अथवा द्रव्यवस्थाम् आप्नोति येन वस्तुनः निर्माणम् अभवत् यथा उदाहरणत्वेन पुस्तकम् दृष्ट्वा चित्तम् रूपतन्मात्रम् आकृतिनिर्माणम् तन्मात्रम् गृह्णाति पुस्तकस्य रूपं सम्यक्तया ग्रहणात् पूर्वं चित्तम् पदार्थः इव भवति अथवा यया द्रव्या द्रव्यावस्थया पुस्तकम् निर्मितं सा अव अवस्था इव चित्तम् भवति यदि पुस्तकम् कागदनिर्मितम् अस्ति तर्हि तत् क्षितितत्वे वा द्रव्यस्तस्थूलवस्थायाम् वा अन्तर्भवति पुस्तकरूपस्य ग्रहणात् प्राक् चित्तम् कागदवत् क्षितितत्त्ववत् वा भवेत् अतः चित्तम् इव वा भूतम् पञ्चभूतानि इव भवेत् यस्मात् वस्तुनः निर्माणम् जातम् तदैव चित्तम् सम्पूर्णम् योग्याकारम् च ग्रहीतुम् शक्नोति कल्पनायाम् याः आकृतयः निर्मिताः ताः किमर्थम् वास्तविकाः दृश्यन्ते इति तदा एव सुलभतया ज्ञातुम् शक्यते यदा कथं मनसि काल्पनिकः आकारः निर्मितः इति ज्ञायते सो प्रथमं कस्य एकं वस् वस्तु वस्तुनः रूपं वयं ग्रहणीयं चेत् तस्य चित्तं तु प्रथमं तस्य तस्य तन्मात्रं गृह्णाति इत्युक्ते तत्र एक मम अस्माकं चित्तं प्रथमं पञ्चभूतम् इव भवति सो अनन्तरं नो एन येन येन पञ्चभूतेन नो द्रव्यया द्रव्यया तत् निर्माणम् अभवत् प्रथमं तत् एव आप्नोति सो यदा प्रथमं वयं पुस्तकं द्र पश्यामः चेत् तत्र पुस्तकस्य आकृति पुस्तकस्य किं पुस्तकं सर्वे कागिद कागिदेन निर्माणं भवति किल तत् तत् ग्रहणं करोति सो uh, so, तस्य आकारं तस्य तस्य कलर् तस्य रूपं आ, सर्वं आ, स्थूलत्वं वा लघु वा तत् सर्वं गृह्णाति सो so, तत् गृहीत्वा अनन्तरं चित्तम् एव तत् कागिदं वा पुस्तकरूपमेव भवति सो चित्तं तत् तत सो मनसि तस्य रूपं न निर् केवलं न किं प्रतिबिम्बं न करोति चित्तमेव तत भवति तत आकृति गृहीत्वा तत रूपं भूत्वा तदेव भवति एतत् केवलं सो अतः सो तत् चित्तः एव तत् तद् तद् भवति तत् पुस्तकं इव आकारं गृह्णाति अतः वयं वक्तुं शक्नुमः यः यह कल्पनायां यः आकृतिः अपि मनसि निर्मिता तदेव चित्तमेव तद् भवति अतः किं कस्मिन् विषये मम मनः स्थापनीयम् इति सम्यक् रीत्या अवगम अवगमनीयम् नो चित्तं तद्रूपमेव स्वीकरोति तदेव भवति अतः एतत् बहु बहु मुख्य वार्ता अस्ति तत्र मुख्यविषयमस्ति चित्तं यस्मिन् उपरि ध्यानं करोति यस्मिन् उपरि यस्मिन् गृह्णाति यस्मिन् पश्यति यत् शृणोति यत् द्रश्यति यस् यस्मिन् उपविषयं चिन्तनं करोति तस्य आकारं गृहीत्वा तदेव भवति सो so, अतः uh, स चित्तं सम्पूर्णं ग्रहितुं uh, शक्नोति uh, योग्य सम्यक् आकारं ग्रहीतुं शक्नोति uh, अतः कल्पनायां यः आकृति मनसि निर्मिता भवति तदपि वास्तविकया दृश्य वास्तवम् इति तद् चिन्तयति तद् एव दृश्यते अतः अतः वयं जात् अतः एव तत् अन्तिम वाक्यमहं सम्यक् रीत्या न प्रतिपादितुं मया न प्रायः शक्यते किन्तु अर्थं तदेव मानसि मनसि किम् अपि कल्पना कुर्मः चेत् चित्तमपि तदेव आकारं भवति यथा वयं चान्दनी चौक् विषये चिन्तनं कुर्मः चेत् चान्दनी चौक् साक्षात् तत्र अस्ति इव भाति तदेव मम अस्माकं चित्तस्य mm, mm. चित्तस्य फलं किन्तु निर्बलम् अपि अतः वयं कस्मिन् विषये चिन्तनं कुर्मः तद् बहु सम्यक् रीत्या चिन्तयित्वा एव करणीयम् सम्यक् भगिनि समीचीनं धन्यवादः समीचीनम् इति एव विषयः अस्ति सम्यक्तया उक्तवती इत्युक्ते वयं जानीमः तत्र कस्यचित् वस्तुनः प्रत्यक्षं करणीयं चेत् कथमक्रमः कः इति वयं जानीमः तत्र बाह्य बाह्यवस्तु वर्तते यदि पुस्तकं वर्तते चेत् पुस्तके रूपतन्मात्रा वर्तते तर्हि रूपतन्मात्रं नाम तत्र लघुरूपेण सूक्ष्मरूपेण यः तरङ्गः वर्तते पुस्तके सः तरङ्गः तस्मात् गत्वा तत्र अस्माकं चक्षुः तरङ्गं गृह्णाति पुस्तकात् तादृशतरङ्गः अस्माकं चक्षुः तरङ्गः किं करोति तत् तरङ्गं स्वीकृत्य तं तरङ्गं स्वीकृत्य अस्माकं चित्तं प्रति दास्यति तदानीं चित्तं तं तरङ्गं स्वीकृत्य तद्वद् भवति बाह्यपुस् बाह्यवस्तुवद् भवति इदानीं बाह्यवस्तु पुस्तकं स्थितितत्त्वरूपेण अस्ति पृथ्वीरूपेण अस्ति तत्र तादृश तन्मात्रं स्वीकृत्य चित्तं पुस्तकवद् भवति पुस्तकवत् यदा चित्तं पुस्तकवत् रूपं धरति तदानीम् अहं तत्त्वं पुस्तकं द्रष्टुं शक्नोति यदि बाह्यवस्तु शब्दः अस्ति तदानीं शब्दतन्मात्रं तत्र श्रवणेन्द्रियं अस्माकं कर्णः यः अस्ति सः शब्दतन्मात्रं स्वीकरोति तदानीम् अस्माकं कर्णतः चित्तं प्रति त तन्मात्रा तन्मात्रं गच्छति तदानीं चित्तं शब्दवत् भवति तदानीम् अहं तत्त्वं शब्दं श्रोतुं शक्नोति एवं रीत्या क्रमः अस्ति सर्वत्र बाह्यवस्तुनः इदानीं यदा बाह्यवस्तु नास्ति परन्तु अस्माकं मनसि एव कल्पना अस्ति तदानीं कल्पनायामपि वयं पुस्तकं द्रष्टुं शक्नुमः खलु इदानीं वयम् अस्माकं नयनं नयनम् उन्मील्य वयं पुस्तकं द्रष्टुं शक्नुमः सर्वे नयनम् उन्मील्य एकवारं पुस्तकं पश्यन्तु यदा वयं पुस्तकं पश्यामः तदानीं पुस्तकमस्ति इति दृश्यते पुस्तकमस्ति इति दृश्यते चेत् तत्र पुस्तकं वास्तविकतया अस्ति वा अथवा नास्ति वा इति चिन्तनं नास्ति इदानीम् अत्र वास्तुरिक वास्तविकमेव भाति यदा अहं नयनम् उन्मील्य पुस्तकं पश्यामि तदानीं पुस्तकमस्ति इति भाति तत्र पुस्तकं वास्तविकं नास्ति इति न भाति पुस्तकमस्ति इति एव भाति अतः यदा वयं कल्पनां कुर्मः तदानीं वास्तविकम् इति एव दृश्यते कल्पना इति न दृश्यते यावत्पर्यन्तं कल्पना वर्तते तावत्पर्यन्तं वास्तविकम् इति एव अस्ति इति तत्र अत्र द्रष्टव्यम् अस्तु तर्हि अत्र तत्र नूतना छात्रा अस्ति अमिता अमिता अमिता भगिनी वा अथवा अमिता भगिनी अस्ति वा भगिनी प्रश्नः अस्ति यथा तन्मात्रा स्वीकृत्य तस्मिन् यत् द्रव्य आश्रितः अस्ति तन्मात्रा तत् वयं वक्तुं शक्नुमः न तस्य आकारः यत् अस्ति यथा पुस्तकस्य स्थितिः तत्त्व अस्ति किन्तु तन्मात्रा इति रूपम् अस्ति रूपस्य आश्रय तेजस् अस्ति साधु किन्तु अन्या <laughs> न रूपस्य आश्रयः पृथ्वी अपि अस्ति किमर्थं तेजः इति वदति <laughs> तेजः अपि रूपस्य आश्रयः अस्ति पृथ्व्यामपि रूपमस्ति खलु हा आमाम् <laughs> अस्तु किन्तु चक्षु इन्द्रिया इन्द्रियेण रूपं वयं चक्षुरिन्द्रियेण रूपं गृह्णीमः रूपतन्मात्रं गृह्णीमः पुस्तकात् रूपतन्मात्रं गृह्णीमः तद् रूपतन्मात्रं चक्षुः तत् अस्माकं किं मस्तिष्कः मस् मस्तिष्कस्य द्वारा चित्तं प्रति ददाति तदानीं चित्तं तत्तन्मात्रं स्वीकृत्य पुस्तकवद् भवति रूपतन्मात्रं स्वीकृत्य हा हा न अहं प्रत्येकस्य आश्रय तन्मात्रा भवति पुस्तकं न केवलमिति रूपं स्थितितत्त्वम् अस्ति वस्तुतः किन्तु वयं स्पष्टं किमर्थं केवलं स्थितितत्त्वं नास्ति इति वदति द्रव्यमस्ति क्षितितत्त्वमपि अस्ति खलु किमस्ति अन्यत् किं भवति अन्यत् किमपि नास्ति केवलं पृथ्वी क्षितितत्त्वमेव खलु तर्हि क्षितितत्त्वे तु तत्र सर्वाणि सन्ति सर्वाणि तन्मात्राणि सन्ति अस्तु अस्तु धन्यवादः यदि यदि पुस्तकं न पश्यामः पुस्तकस्य तत्र तत्र गन्धः यः अस्ति तद् गन्धं वयं घ्राणं कुर्मः तदानीं पुस्तकम् अस्माकं नासिकायाः समीपे स्थापयामः चेत् तत्र ग्राणस्य तत्र गन्धस्य ग्रन् गन्धं गन्धं स्वीकुर्मः नासिकया तदानीं तत्र नूतनपुस्तकं घाटयामः तत्र गन्ध अपि तदानीं चित्तं गन्धवत् भवति गन्धतन्मात्रं स्वीकरोति अस्तु यदि पुस्तकस्य स्पर्शं कुर्मः तदानीं स्पर्शतन्मात्रं वयं स्वीकुर्मः तत्र स्पर्शेन्द्रियेण तदानीं तत्र किं भवति चित्तं स्पर्शवत् भवति अथवा पुस्तकस्य स्वादं कुर्मः तदानीं रसन्मात्र तन्मात्रायाः ग्रहणं भवति रसनेन्द्रियद्वारा पुनः चित्तं तद्वद् भवति धन्यवादः अस्तु अत्र अत्र कोऽपि प्रश्नः अस्ति वा एतावता इदानीम् अग्रिमपरिच्छेदः किञ्चित् दीर्घः अस्ति इति कृत्वा अग्रिमसप्ताहे स्वीकुर्मः अत्र कोऽपि प्रश्नः अस्ति चेत् पृच्छन्तु नो चेत् अग्रे गच्छामः अग्रिमसप्ताहे अत्र स्थगनं कुर्मः धन्यवादः भगिनि धन्यवादः नमस्कारः